अत द्वितीयाष्टकपञ्चमप्रश्नप्रारम्भः प्राणो रक्षति विश्वमेजत् यर्यो भूत्वा बहुधा बहूनि स यत्सर्वम् व्यानशे यो देवो देवेषु विभोरन्दः आवृदूतात् क्षेत्रियध्वगद्वृषा अवित्प्राणम् अग्रम् देवानामिदमत्तु नो हविः मनसश्चित्तेदम् भूतम् भव्यम् च गुप्यते तद्धि देवेश्वद्भ्रियम् आदरे तु पुरश्चरम् सह देवैरिमगुम्भवम् मनःश्रेयसि श्रेयसि श्रे कर्म न यज्ञपतिम् दधत् इषताम् मे बागिदगम् हविः पुरोहिता अव्यवाडनपायिनी यजा रूपाणि बहुधा वदन्ति एषा गुंसि देवाः परमे चलित्रेवे सा नो विराडनप स्फुरन्ती वाग्देवी दुषतामिदगुम् अस्य विज्ञानाय बहुधा निधीयते तस्य मानोहासेद्विचक्षणम् आयुरिणः प्रतीर्यताम् अनन्धास्त्रक्षुषा वयम् जीवाज्योतिरशीमहि सुवर्ज्योतिरुतामृतम् श्रोत्रेण भद्रमुतशृण्वन्ति सत्यम् श्रोत्रेण वाचम् बहुधोद्यमानाम् श्रोत्रेण मोदश्च महश्च श्रूयते श्रोत्रेण सर्वा दिश आशृणोमि येन प्राच्या उत दक्षिणा प्रतीच्ये दिश शृण्वन्त्युत्परात् तदिच्छ्रोत्रम् बहुभोद्यमानम् अरान्ननेमिः परि सर्वम् बभूव बुदेहि वा जन्यो अस्य स्वन्तः लघुम् राष्ट्रमाविशसूनृतावत् योलोहितो विश्वमिदम् जान स नो राष्ट्रेषु सुधिताङ्गधातु रोहगम् रोहगम् रोहित आरुरोह प्रजाभिर्वृद्धिम् जनुषामुपस्थम् ताभिः सगम् रब्धो रविदक्षर्वीः दातुम् प्रपश्यन्दिह राष्ट्रमाहा आहारिषेद्राष्ट्रमिह रोहितः गृधोऽव्यास्थदभयन्नो अस्तु अस्मभ्यम् या वा पृथिवी राष्ट्रम् गुहाथा विहरेवतीभिः विममर्षरोहितो विश्वरूपः समाचक्राणः प्ररुहोरुहश्च दिवङ्गत्वाय महता यास्ते विशस्तपसा सम्बभूवुः कायत्रम् वत्समनुतास्त आगुः तास्ताविशन्तु आगु सम्माता पुत्रो अभ्येतुरोहितः यूयमुद्रामरुतः प्रश्निमातरः इन्द्रेण सयुजाः प्रमृणेथ शत्रून् आभोरोहितो अशृणोदभिद्यवः त्रिसक्ता सोमरुतः स्वादुसम्मुदः रोहितो द्यावापृथिवीजानस्मिस्तन्तम् परमेष्ठीततान तस्मिं्छिश्रिये अज अदृगृंहद्या वा पृथिवी बलेन रोहितोद्या वा पृथिवी अदृगृंहत् तेन सुवस्तभितम् तेन नागः सोऽन्तरिक्षे रजसोऽभिमानः तेन देवाः सुभरन् वविन्दन् सुषेवन्त्वा भो दीदिवांसम् समग्रासो जिह्वो जातवेदः उक्षन्ति वाजिनमाधृतेन सगुम् समग्नेजुपसे भोजनानि अग्ने शर्धमहते सौभगाय संतो सन्तो सञ्जास्पत्यगुंसु य ममा कृष्व शत्रो जतामभितिष्ठा महागुंसे पुनर्नविन्द्रो मघवा महा ददातु धनानि शक्रो धन्यः सुराधाः गर्वाचीनम् कृणुताम् याचितो मनः शुष्केन अस्य हविषो जुषाणः यानिनो जिनन्धनानि जहर्षशूरमञ्जुना इन्द्रानुविन्दनस्तानि अनेन हविषा पुनः इन्द्र आशाभ्यः सर्वाभ्यो भयङ्करत् जेताशत्रो शत्रो नर्षणिः आकोच्ये पुरोदधे अमृतत्वाय जीवसे आकूतिमस्यावसे काममस्य समृद्ध्यै इन्द्रस्य निन्दतेऽधिलः आकूतिम् देवीम् मनसः पुरोदधे यज्ञस्य माता सुहवामे अस्तु यदिच्छामि मनसा स कामः विधेय निविष्टं हृदये से निविष्टम् सेदग्निरग्निगुम्प्रत्येत्यन्यान् यत्र वाजीतनयो वीडुपाणिः सहस्रपाथा अक्षरा समेति आशानाम् त्वाशापालेभ्यः चतुर्भ्यो अमृतेयेभ्यः इदम् भूतस्याध्यक्षेभ्यः विधेमहविषाभयम् विश्वा आशा मधुना सगम् सृजामि अनमी वा आप ओषधयो भवन्तो अयम् यजमागो अभिर्भेदाः पशवः सन्तु सर्वे अग्निः सोमो वरुणो मित्र इन्द्रः बृहस्पतिः सवितायः सहस्री कोशानो गोभिरवसा सरस्वती त्वष्टारूपाणि समनक्तु यज्ञैः त्वष्टारूपाणि दधति सरस्वती कोषाभगगुम् सविता नो ददातु बृहस्पतिर्दददिन्द्रः सहस्रम् मित्रो दाता वरुणः सोमो अग्निः आनोभरभरमिन्द्रद्युमन्तम् निते देष्णस्य धीमहि प्ररेगे उर्व इव पप्रथे कामो अस्मे तमाप्रणावसुपते वसूनाम् इमम् कामम् इन्द्रायवाहः कृसो अक्रन् इन्द्रस्यनुभेव्याणि प्रवोचम् यानि चकार प्रथमानि वज्री अहम् न हिमन्वपस्तपर्द प्रवक्षणा अभिनःपर्वतानाम् श्राहि वधेन वस्यन्दमानाः अञ्जः समुद्रमवजग्मुरापः विषायमानो वृणीतसोमम् त्रिकद्रुकेष्वपि बत्सितस्य आसायकम् अघवा दत्तवज्रम् अहन्नेनम् प्रथमजामहीनाम् यदिन्द्राहम् आत्सूर्यम् जनयन्त्यामुशासम् आदे क्नाशत्रोन्न किला विवित्से अहम् वृत्रम् वृत्ततरम् व्यगुंसम् इन्द्रो वज्रेण महता वधेन स्कन्धा पुंसि वकुलिशेना विवृक्ना अहिशगत उपप्रपृथिव्याम् अयोध्येव दुर्मद आधिजुे नादारीरस्य समृतिम् वधानाम् सर्वम् वृजानाः इन्द्रशत्रुः विश्वो विहाया अरतिः वसुर्दधे हस्ते दक्षिणे परनिर्मशिस्रथत् श्रवस्य जानसिस्रथत् विश्वस्मा इति शुध्यसे देवत्राहव्यमोहिषे विश्वस्मा इति सुमृते उदुज्जिहानो अभिकामीरयन् प्रपञ्चन् विश्वाभुवनानि आकेतुना आकेतुनाशुषमिद्धूयविष्ठः कामम् नो अग्ने अभिहर्य दिग्भ्यः जुषाणो हव्यममृतेषु धूढ्यः आदो रयिम् बहुलाङ्गोमतीविषन् विधेहि यक्षदमृतेषु भूषण् अश्विना यज्ञमागतम् दाशुषः कोषारक्षतु नो रयिम् इमम् यज्ञमश्विना वर्धयन्ता इमौ रयिम् यजमानाय धत्तम् इमौ पशोन् रक्षताम् विश्वतो नः कोषानः पातु सदमप्रयुन् प्र सरस्वति सुभगे वाजिनीवति सत्यवाचे भरे मतिम् हव्यं हव्यम् सरस्वति सत्यवाचे प्रभरे मा हवेगुंषि इमानि ते दुरिता सौभगानि तेभिर्वजगुम् सुभगा स्याम यज्ञो राजो यज्ञगीशेवसूनाम् यज्ञः सस्यानामुत सुक्षितीनाम् यज्ञ इष्टः पूर्वचित्तिन्दधातो यज्ञो ब्रह्मण् वागुम् अप्येतु देवान् अयम् यज्ञो वर्धताङ्गोभिरश्वैः इयम् मेदिष्वपत्या सुवीरा इदं बर्हिरति बर्हि गृह्यन्या इमै यज्ञम् विश्वे अवन्तु देवा भगये देवाः भगयेव एव भगवागुम् देवाः तेन वयम् भगवन्तः स्याम तन्त्वाभगसर्वयुज्यो हरीमे स सनो भगपुर एता भवेह भगप्रणेतर्भगसत्यराधः भगे मान्धिजमुदवदन्नः भगप्रणोदनजगोभिरश्वैः भगप्रणर्भिर्नृवन्तः स्याम शश्वते समा उपयन्ति लोकाः शश्वतेः समा उपयन्त्यापः इष्टम् कोर्तगम् शश्वतीनागुम् समा नागुम् शाश्वतेन ना। हरिषेष्ट्वानन्दम् ना। लोकम् परमारुरोह इयमेव सा या प्रथमा व्यौच्छत् सारूपाणि कुरुते पञ्चदेवी द्वे सनातनम् विततकुम् षण्मयुखम् अवान्याघस्तन्तो ओङ्रतो धत्तो अन्यान् नावपृज्याते न गमाते अन्तम् आवोयन्तो गवाहासो अद्य वृष्टिङ्गे विश्वे मरुतो जनन्ति अरेन्द्यो अग्निर्मरुतः समिद्धः एतञ्जुषध्वम् कवयो युवानः धारावरा मरुतोधिष्णुवोजसः मृगानभीमास्तविषेभिरोर्मिभिः अग्नयो न श्रुजानारिजीषिणः भ्रुमिन्धवन्त उपगा अवृण्वत विचक्रमेत्रिर्देवः आदेधसन्निलपृष्ठम् बृहन्तम् बृहस्पतिगुंसदने सादयध्वम् सा दद्यो निन्दम आदि दिवागुंसम् हिरण्यवर्णमरुषगुंसपेम स हि शुचिः शतपत्रः सशुन्ध्योः हिरण्यवाशीर्षिरः सुवर्षाः बृहस्पतिः सावशविश्वाः ओरोसहिर्भ्यः सतिम् करिष्ठः पोषग्रस्तव व्रते वयम् यास्ते पोषन्नावो अन्तः समुद्रे हिरण्ययैरन्तरिक्षे चरन्ति या याभिर्यासि धोत्यागुंसौर्यस्य कामेन कृतश्रव इच्छमानः अरण्यान्यरण्यान्यसौ या प्रेमनश्यसि कथाग्रामम् न पृच्छसि न त्वाभिव विन्दतीय वदते यदुपावतिचिच्चिकः आघाटीभिरिवधावयन् अरण्या निर्महीयते उत गावन् ऋतो वेश्मे वदृश्यते उतो अरण्या निः सायम् शकटेरिपसर्जति कामङ्गैष आह्वयति दामङ्गैष उपावधीत् वसन्नरण्यान्यागम् सायम् अकृक्षदिति मन्यते न वा अरण्या निर्हन्ति अन्यश्चेन्नाभिगच्छति फलस्य जग्धा यत्र कामम् निपद्यते वाञ्छनगन्धे गुंसुरभी बह्वन्नामकृषे वदाम् प्राहम् मृगाणाम् मातरम् अरण्या सिशं बात्रहत्यायशवसे मार्त्रहत्याय शवसे रतनासाह्याय च इन्द्रत्वावर्तया वसि सुब्रह्माणम् श्रुतर्षिबुग्रमभिमातिशाहम् अस्मभ्यम् चित्रम् वृषणकुम् रगिन्दाः क्षेत्रियित्वा निरृत्ययित्वा गृहो चामि वरुणस्य पाशात् अनाटसम्ब्रह्मणे उभे इमे शन्ते अग्निः शमन्तरिक्षकम् सह वाते न ते शन्ते चतस्रः प्रदिशो भवन्तो या देवेश्चतस्रः प्रदिशः वादपत्नीरभिसौर्योऽपि चष्टे तासान्त्वा जरस आदधामि प्रयक्ष्मते तु निर्वृतिम् पराचैः अमोचि यक्ष्माद्दुरिताजवर्त्यै दृहः पाशान्निर्वृत्यै चोदमोचि अहावर्तिमविदत्स्योडम् अप्यभूद्भद्रेषु कृतस्य लोके सौर्यमृतम् तमसोऽग्राह्यायत् देवा अमुञ्चन्न सृजन्येन सह एवमहमिमङ्क्षे त्वराज्यामिशपुंसात् बृहो मुञ्चाविवरुणस्य पाशात् बृहस्पते युवमिन्द्रश्च वस्वः दिव्यस्येषाथे उत पार्थिवस्य भर्तगुम् योऽयम् पादः स्वस्तिभिः सदा नः देवायुधविन्द्रमाजोहुमानाः विश्वावृथमभिये रक्षमाणाः येन हता दीर्घमध्वानमाजन् अनन्तमर्थमनिवर्त्स्यमानाः यत्ते सुजाते हिमवत्सुभेषजम् वयोभूः शन्तमायद्धृतोऽसि ततो नो देहि बले अरो गिरिभ्यो अधिजत्प्रधावसि स पुंशोभमाना कन्येव शुभ्रे ताम् त्वामुद्गलाः विषावर्धयन्ति सा नस्यी बले रयिमाभाजदेह पूर्वम् अपरे देवा अपरेणानुपश्यन् जन्मभिः जन्मान्यवरे पराणि वेदानि देवा अयमस्मीति माम् अहगम् हित्वा प्राणापानौ चक्षुश्रोत्रम् वाचम् मनसि सम्भृता हित्वा शरीरम् जलसः परस्तात् आ भूतिम् भूतिम् वयमश्नवामही इमा एव ता कुशसो याः प्रथमा व्यौ्छन् तादेव्यः पञ्चरूपा शश्वतीर्णावपृज्यन्ति न गमन्त्यन्तम् वसूनान्ताधीतेन रुद्राणा आदित्यानाम् तेजसा विश्वेषाम् देवानां क्रतुना मरुता मेम् राजुहोमिस्वाहा अभिभूतिरहमागमम् इन्द्रसखा स्वायुधः आश्वासासु दुःसहः इदम् वर्चो अग्निना दत्तमागात् यशो गर्गः सह अजबलम् प्रतिगृह्णामि महते भेद्याय आजुरसि विश्वाजुरसि सर्वाजुरसि सर्वमाजुरसि सर्वम् महायुर्भूयात् सर्वमायुर्गेशम् भूर्भुवस्सुवः अग्निर्धर्मेणाम् नादः मृत्युर्धर्मेणाम् नपतिः ना ब्रह्मक्षत्रज्ञस्वाहा प्रजापतिः प्रणेता बृहस्पतिः यमः पन्थाः चन्द्रमाः पुनरसु स्वाहा यज्ञे यजमाना यद्दातु स्वाहा सोमो राजाराजपतिः राज्यमस्मिन् यज्ञे यजमाना यद्दातु स्वाहा वरुणः सम्राट् सम्राट्पतिः साम्राज्यमस्मिन् यज्ञे यजमाना यददातु स्वाहा मित्रः क्षत्रम् क्षत्रपतिः क्षत्रमस्मिन् यज्ञे यजमानाय ददातु स्वाहा इन्द्रो बलम् बलपतिः बलमस्मिन् यज्ञे यजमानाय ददातु स्वाहा बृहस्पतिर्ब्रह्म ब्रह्मपतिः ब्रह्मास्मिन् यज्ञे यजमानाय ददातु स्वाहा सविता राष्ट्रगम् राष्ट्रपतिः राष्ट्रमस्मिन् यज्ञे यजमानाय ददातु स्वाहा कोषाविषाम् विट्पतिः विशमस्मिन् यज्ञे यजमानाय ददातु स्वाहा सरस्वती पुष्टिः पुष्टिपत्नी पुष्टिमस्मिन् यज्ञे यजमानाय ददातु स्वाहा पुष्टापशूनाम् विसनानागुं रूपकृद्रोपपतिः रूपेणास्मिन् यज्ञे यजमानाय पशोन् ददातु स्वाहा स येम् पाहि यरुजीषीतरुत्रः यस्य प्रवान्वृषभोजो मतीना योगोर्त्रभित्वज्रभिर्यो हरिष्ठाः स इन्द्रचित्रागम् अभितृन्धिवाजान् आदेशुष्मो वृषभयेतु पश्चात् ओक्तरागधरागापुरस्तात् आविश्वतो अभिसमे सर्वाङ् इन्द्रद्युम्नगुम् सुबर्वद्धे ह्यस्मे पुरोश्वस्मै पुरोरथम् इन्द्रायशो समर्चत अभीकेचिदु लोककृत सङ्गे समत्सुवृत्रः अस्माकम् बोधिचोदिता नभन्तामन्यकेशाकाभिहन्वसो इन्द्रम् भयगं सुनासीरम् अस्मिन् यज्ञे हवामहे आवाजे आवाजैरुपनोगमत् इन्द्रायशुदासीराय सृजायहुतनोहविः द्विषताम् प्रतिमेधिरः प्रहर्यानि घृतवन्त्यस्मै हर्यस्वाजभरता सजोषाः इन्द्रत्वभिर्ब्रह्मणा वा वृधानः सुरासीरेहविरिदञ्जुषस्व पयस्वपर्णा उपसे दुरिन्द्रम् प्रियमे धारिषजानाधमानाः अपध्वान्तमोर्णुहिपोर्ध्यचक्षुः मोग्ध्यस्मान् बृहदिन्द्राय गायता मरुतो वृत्प्रहन्तमम् येन ज्योतिरचनयन्द्रता वृधः देवम् देवायजागृवि कामिहैकाः कलिमे पतङ्गाः मान्धादाः क्वलिपरिमापतन्ति अनावृतेनान् प्रथान्तु देवाः सौपर्णम् चक्षुस्तनुवाविदेय देवा एवावन्दस्वरुणम् बृहन्तम् नमस्याधीरमृतस्य गोपाम् सरः शर्मत्र्यवरोथम् विजगुंसत् योऽयम् वातः स्वस्तिभिः सदानः याके सुपर्णमुपजत्पतन्तम् हृदा वेनन्तो अभ्यचक्ष दत्वा ईशानावार्याणाम् क्षयङ्गीस्तर्शनीनाम् अपोयाचामि भेषजा अप्सु मे सोम अब्रवीर अन्तर्विश्वानिभेषजा अग्निम् च विश्वशम्भुवम् आपश्च विश्वभेषजेः यदप्सु ते सरस्वति भोश्वस्वेषु जन्मधो तेन मेवादिमेवति मुखमङ्खि सरस्वति या सरस्वती वै सफल्या तस्िष्ठभाजो भूजास्म अहं वदस्देमेत मजो निस्तभजो निरस्मी मंवहव्याल्ये लोक वेद इ्हसन्तत्र सन्तंवाग्ने प्राणेन वाचा मनसा बिभर्मि तिरोमासन्तमा जर्माप्रहासीत् ज्योतिषात्वा नरेणो नरेणोपतिष्ठे अयम् ते ज्योतिर्दृक्विजः यतो जातो अरोचथाः तम् जानन्नग्न आरोह अथान न याते अग्ने निद्यजातनोऽस्तये ह्यारोहात्मात्मानम् अच्छादसोऽ कण्वन्नस्मे नर्याकुरुणि यज्ञो भूत्वा यज्ञमासीदस्माञ योनिम् जातवेदो भव आजायमानः सक्षल एहि उपावरोहजातवेदः पुनस्त्वम् देवेभ्यो हव्यम् अहनः प्रजानम् आयुः रजमस्मासुधेहि अजस्रोदीरिहि अरमिन्द्रम् हवेमि मघवानमुग्राम् सर्त्रादधानमप्रतिष्कृतगुंश वा पुंसि मगुम्हिष्ठो गीर्भिराच जज्ञयोपवर्तत राजेन विश्वासु तथा कृणोतु वज्री त्रिकद्रुकेषु महिषो जवाशिरम् सोममपि तद्विष्णुना सुतै यथावशत् स ये सैनगुम् सश्च देवम् देवः सत्यमिन्दुगुम् सत्य इन्द्रः निरद्यपि सर्वारुग्णमद्रेः महिपाथः पूर्व्यगुम् सद्धियक्कः अग्रन्नयत्सुपद्यक्षराणाम् अच्छारवम् रथमा जानतीगात् निरद्गव्यगुम् सर्वा दृढमूर्वम् येनानुकम्मानुषे कृण्वानासो अमृतत्वायगातुम् त्वन्नृभिर्नृपते देवहूतो भोरेण हृत्वा हर्यश्वः पुंसि त्वन्निदस्य चुमुरिम् धुनिम् चाश्वापयोदभीतये सुहन्तो एवापाहि प्रत्नथा मन्दतुत्वा श्रुधिर्ब्रह्म वावृधः शोकगेर्भिः आविस्वौर्यङ्कृपि शेषः अग्ने बाधस्वपि मृधोऽनुदस्व अपामी वा अपरक्षागुंसिसेध अस्मात्समुद्राद्गृहतो दिवो नः अपाम् भोपानवनसृजेः यज्ञप्रतिष्ठ सुमतौ शिषे भात्वा वसूनिपुरुधा विषन्तो दीर्घमायुर्गजमानाय कृण्वन् अथामृतेन जरितारमङ्घ्रि इन्द्रः शृणावद्वितनोतिसीरम् संवत्सरस्य प्रतिमाणमेतत् अर्कस्य ज्योतिस्तदिदासज्येष्ठम् संवत्सरकम् शृणवत्सीरमेतत् इन्द्रस्य राधः प्रयतम् पुरुत्मना तदर्थरूपम् विविमानमेति द्वादशारे प्रतिष्ठरेद्भृषाः अश्वायन्तो गव्यन्तो वाजयन्तः भवामहे त्वापगन्तवा आहोषन्तस्त्वासु मतो न वाया वयमिन्द्रत्वासु न गृम्भुवेम